तत्त्वज्ञानमम् भक्तिम् शुद्धा निष्कामधर्मे प्रवरगुरुगिरा त्वत्स्वरूपम् परम् ते शुद्धम् देहेन्द्रियाधि व्यवगतमखिल व्याप्तमावेदयन्ते नानात्वस्तौल्यकार्च्यादि तु गुणजबभू शङ्कतोत्यासितम् ते वग्ने दारु प्रभेदेष्विवमहतनुता दीप्तता शान्तता दी। आवेदोभासीन स्फुटतर पर कर्मासना कृतनुभुवन भ्राकांता विद्या शिखिनी च विर त्वन्मयी कल्ववस्था एवम् त्वत्प्राप्तितोऽन्यो न हि खलु नि किल क्लेशहानिरुपायो नैकान्तात्यन्तिकास्ते कृषिवदगत षाड्गुण्य षट्कर्मयोगा दुर्वैकल्यैरकल्या अपि निगमपतास्तत्फलान्यप्यवाप्ता मत्तास्त्वाम् विस्मरन्त्र प्रसजति पदने यान्त्यनन्तान्विषादान् त्वल्लोकादन्यलोक क्वनुभयरहितो यत्पदा तद्वयान्ते तद्भीतः सत्यलोके विना सुकवसते पद्मभूपद्मनाभ एवम्भावे त्वधर्मार्जितबहुतमसाम् काकतानारकाणाम् तन्मेव त्वम् शिन्तिबन्तम् वरत कृपणबन्तो कृपापूरसिन्थो यदार्त्या त्वन्मयस्यैव हि मम न विबो वस्तुतो बन्धमोक्षौ माया विद्यातनुभ्याम् तव तु विरशितौ भक्ते जीवत् विमुक्तिम् गतवती चबिता पिता तावती तावदेको भुङ्क्ते देतृमस्थो विषयफलरसान् नापरो निर्व्यतात्माम् जीवन्मुक्तत्वमेवम् वितमिति वचसा किम् फलम् दूरदूरे तन्नामा शुद्धबुद्धेर्न च लघुमनस भक्तितोऽन्य तन्मे विष्णो गृहीष्ठास्त्वयि कृतसकल प्रार्पणम् भक्तिवारम् येन श्यामङ्क्षु किञ्चित् गुरुवचनमिल त्वत्प्रबोतस्त्वदात्मा शब्दब्रह्मण्यपीह प्रयतितमनस कष्टम् वन्द्यक्षमास्ते चिरतरमिकगाम् विप्रते निष्प्रसूतिम् यस्याम् विश्वाभिराम सकलमलहर दिव्यलीलावतार सच्चित्सान्द्रम् च रूपम् तव न निगदितम् त्वमिति किमपि नैवावगश्यामि भूमन् एवम् चानन्यभावदनुभजन मे वाद्रिये चैत्यवैरिन् त्वल्लिङ्गानाम् त्वदङ्क्रे प्रियजनसतसाम् दर्शनस्पर्शनाधि भूयान्मे त्वत्प्रपूजा नति नतिगुण कर्मा नु कीर्त्यादरोऽपि यत्यल्लभ्येत तत् तव समुपहृतम् देवदासोऽस्मि तेहम् त्वद्येहान्मार्जनाध्यम् भवतु मम मुखो कर्म निर्मायमेव सूर्याग्निब्राह्मणात्मातिशुलसित चतुर्बाकुमारादये प्रेमार्द्रत्वरूपो मम सततमबे क्षन्दताम् भक्तियोग ऐक्यम् ते दानहोम व्रतनियमतप साङ्ख्ययोघैर्दुरापम् गोप्य किल सुकृतितमा प्रापुरानन्दशान्ध्रम् भक्तेष्वन्येषु भूयस्वपि बहु मनुषे भक्तिमेव त्वमासाम् तन्मे त्वद्भक्तिमेव द्रटय हरगतान् कृष्णवातानये च कृष्णा कृष्णा मोकुन्ता जनार्दना कृष्णा गोविन्दनारायणहरे अच्युदानन्तमाधवा केशवा सच्चिदानन्तनारायणहरे